नारदपुराणम् उत्तरार्धम् अध्यायं फिफ्टि टु मोहिन्युवाच विप्रवर्यत्वं कृपालुः सर्वदेहिषु यच्छ्रुतं ते मुखाम्भोजा काशीमाहात्म्यमुत्तमम् अधुनाहं क्रुधार्थास्मि हि प्रतिबोधिता कृपालुना निपतिदाभ्युद्धदा तव सागराद अधुना श्रोतुमिच्छामि हरेः क्षेत्रस्य मानद माहात्म्यं यत्र गमनात् कृतार्थो जायते नरः पुरुषोत्तमविष्णोस्तु क्षेत्रं मुक्तिविधायकं श्रूयते हि पुराणेषु वर्णितं मुनिभिर्द्विजैः तत्कथ्यदा महाभाग यदि दे प्रिया साधव सर्वलोकस्य सततोपकृतौ स्थिताः वसुरुवाच शृणु देवि प्रवक्ष्यामि तुभ्यमाहात्म्यमुत्तमम् पुरुषोत्तमनाम्नस्तु क्षेत्रस्य ब्रह्मणोदिदम् पृथिव्याम् भारतम् वर्षम् कर्मा भूमिरुदा कृदा तत्रास्ते भारते वर्षे दक्षिणो दधितिरगः उत्कलेदिसमाख्यातस्वर्गमोक्षप्रदायकः समुद्रादुत्तरं तावद् यावद्विरजमण्डलं देशोऽसौ पुण्यशीलानां गुणैः सर्वैरलङ्कृतः सर्वतीर्थानि पुण्यानि पुण्यान्यायतनानि च उत्कले वेदितव्यानि तानि तु समुद्रस्योत्तरे तीरे तस्मिन् देशेऽखिलोत्तमे आस्ते गुह्यं परं क्षेत्रं मुक्दिदं पापनाशनं सर्वत्र वालुकाकीर्णे पवित्रं धर्मकामदं दशयोजनविस्तीर्णं क्षेत्रं परमदुर्लभं नक्षत्राणां यथा सोमः सागरो यथा तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमं वसूनां पावको यद्वद्रुद्राणां शङ्करो यथा तथा श्रेष्ठं हि तीर्थानां सर्वेषां पुरुषोत्तमं वर्णानां ब्राह्मणो यद्वद्वैनतेयश्च पक्षिणाम् तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमं सेनानीनां यथा स्कन्दस्सिद्धानां कपिलो यथा ऐरावतो गजेन्द्राणां महर्षीणां भृगुर्यथा मेरुशिखरीणां नाम यद्वन्नगानां च हिमालयः उच्चैश्रवा यथाश्वानाम् कवीनामुशना यथा मुनीनां च यथा व्यासकुबेरो यक्ष रक्षसाम् इन्द्रियाणां मनो यद्वद्भूतानामवनी यथा अश्वद्वसर्ववृक्षाणां पवनः पवदां यथा अरुन्धदी यथा स्त्रीणां सहस्त्राणां कुलिशं यथा अकारसर्ववर्णानाम् गायत्री छन्दसां यथा सर्वाङ्गेभ्यो यथा श्रेष्ठमुत्तमाङ्गं विधा धृते यथा समस्तविद्यानां मोक्षविद्या परा स्मृता मनुष्याणां यथा राजाधेनूनाम् कामधुव्यथा सुवर्णं सर्वधातूनां सर्पाणां वासु कीर्यथा प्रह्लादसर्वदैत्यानां रामशस्त्रभृदां यथा चषाणाम् मकरो यद्वन्मृगाणां मृगराड्यथा वरुणो यादसां यद्वद्यमसं यमनीयां संयमिनां यथा क्षीरोधसागराणां च देवर्षीणां च नारदः पुरोधसां यथा जीवकालकलयदां यथा ग्रहाणां भास्करो यद्वन्मन्त्राणां प्रणवो यथा कृत्यानां धर्मकाल्यञ्च तद्वत् श्रीपुरुषोत्तमम् पुरुषाख्यं सकृ दृष्ट्वा सागरान्तः सकृन्मदः ब्रह्मविद्यां सकृ ज्ञात्वा गर्भवासो न विद्यते एवं सर्वगुणोपेदम् क्षेत्रम् परमदुर्लभम् आस्ते यत्र वरारोहे विख्यातम् पुरुषोत्तमम् जगद्व्यापी स विश्वात्मा देवेश्च पुरुषोत्तमः जगद्योनिर्जगन्नाथस्तत्र सर्वं प्रतिष्ठितम् अजशक्रश्च रुद्रश्च देवाश्चाग्निपुरोगमाः निवसन्ति महाभागे तस्मिन् देशे सदैव हि गन्धर्वात् सरससिद्धाः पितरो देवमानुषाः यक्षा विद्या कराश्चैव मुनयः शंसिदव्रताः ऋषयो वालकिल्याद्याः कश्यपाध्याः स्वर्गवासिनः साङ्गा वेदाश्च चत्वारो शस्त्राणि विविधानि च इतिहासपुराणानि यज्ञाश्च बहुदक्षिणाः नव्यश्च विविधाः पुण्यास्तीर्थान्यायतनानि च सागराश्च तथा शैलास्तस्मिन् देशे व्यवस्थिताः एवं पुण्यतमे देशे देवर्षि पितृसेविते सर्वोपभोगसहिते वास कस्य न रोचते तस्य देवस्य किम् चान्यदधिकम् आस्ते यत्र जगद्देवो मुक्तितः पुरुषोत्तमः धन्यास्ते विबुद्धप्रख्याये वत्सन्त्युत्कले नराः तीर्थराजले स्नात्वा पश्यन्ति पुरुषोत्तमं स्वर्गे वसन्ति ते मर्त्या न दूते राजसालये ये वसंत्कले क्षेत्रे पुण्ये श्रीपुरुषोत्तमे सफलं जीवितं तेषां मौत्कलानां सुमेधसां ये पश्यन्ति सुताम्रौष्ठप्रसन्नायतलोचनं चारुभ्रूकेशमुकुटं चारुकर्णलताञ्चितं चारुस्मितं चारुदन्तं चारुकुण्डलमण्डितं सुनासं सुखपोलं च सुललाडं सुलक्षणं त्रैलोक्यानन्दजननं कृष्णस्य मुखपङ्कजं पुरा हृदयुगे देवि शक्रतुल्यपराक्रमः बभूव नृपति श्रीमानिन्द्रद्युम्न युधि श्रुदः सत्यवादी सुजिर्दक्ष सर्वशस्त्रभृदाम्बरः रूपवान सुभगशूरो दादा भोक्ता दा प्रियं वदः यष्टा समस्तयज्ञानां ब्रह्मण्य सत्यसङ्करः धनो वेदे च वेदे च शास्त्रे च निपुणकृति वल्लभो नरनारीणां पौर्णमास्यां यथा शशी आदित्य इव दुष्प्रेक्ष्यो मधुरश्चन्द्रमा इव वैष्णव सत्यसम्पन्नो जितक्रोधो जितेन्द्रियः अध्यात्मविद्यानिरदो युयु सुधर्मतत्परः एवं स पालयेत् पृथ्वीम् राजा सर्वगुणाकरः तस्य बुद्धिसमुत्पन्ना विष्णोराराधनं प्रति कथमाराधयिष्यामि देवदेवम् जनार्दनम् तस्मिन् क्षेत्रे धवातीर्थे नदीतीरे तथाश्रमे एवं चिन्तापरशोधनिरीक्ष्य मनस्सा महीम् आलोक्य सर्वतीर्थानि यानि पापहराणि च तानि सर्वाणि सञ्चिन्त्य जगाम मनस्सा पुनः विख्यातं परमं क्षेत्रं मुक्दिदं पुरुषोत्तमं स गत्वा समृद्धा समृद्धबलवाहनः अयजच्चाश्वमेधेन विधिवद्भूरिदक्षिणः कारयित्वा महोत्सेधं प्रासादं भूरिदक्षिणं तत्र सङ्कर्षणं कृष्णं सुभद्रां स्थाप्य वीर्यवान् पञ्चतीर्थं च विधिवत् कृत्वा तत्र महीपतिः स्नानं दानं जपं होमं देवदा प्रेक्षणं तथा भक्त्याचाराध्यविधिवत् प्रत्यासं पुरुषोत्तमं प्रसादा देवदेवस्य तदो मोक्षमवाप्तवान् मोहिन्युवाच तस्मिन् क्षेत्रे वरे पुण्ये वैष्णवे पुरुषोत्तमे किं तत्र प्रतिमापूर्वं सुस्थिता वैष्णवी प्रभो येनासौ नृपतिस्तत्र त्यक्त्वा सबलवाकनः स्थापयामास कृष्णं च रामं भद्रां शुभप्रदां संशयोऽस्ति महांस्तत्र विस्मयश्च द्विजोत्तम श्रोतुमिच्छामि तत्सर्वं ब्रूहि तत्कारणं च यद वसुरुवाच शृणुष्व पूर्ववृत्तान्तम् तथां पापप्रणाशिनीं प्रवक्ष्यामि समासेन श्रिया पृष्ठं च यत्पुरा सुमेरो काञ्जने शृङ्गे सर्वाश्चर्यसमन्विदे तत्र स्थितं जगन्नाथं जगत्स्रष्टारमव्ययं प्रणम्य शिरसा देवी लोकानां हिदकाम्यया पप्रच्छेदं महाप्रश्नम् भूमौ स्थानमनुत्तमं श्रीरुवाच ब्रूहित्वं सर्वलोकेश संशयं मे हृदिस्थितं मर्त्यलोके महाशल्ये भूमौ कर्मसुदुर्लभे लोभमोहमहाग्राहे कामक्रोधमहार्णवे येनमुच्येत आत्मेश्च दुर्गसंसारसागराद त्वामृदेनास्ति लोकेऽस्मिन्वक्ता संशयनिर्णये श्रुत्वैवं वचनं तस्या देवदेवो जनार्दनः प्रोवाच परया प्रीत्या परं सारामृतोपमं सुखोपायं सुसाध्यं च निरायासं महाफलम् श्रीभगवानुवाच आस्ते तीर्थवरं देवि विख्यातं पुरुषोत्तमं न तेन सदृशं किञ्चित् त्रिषु लोकेषु विद्यते दे। तीर्थनाद्यस्य देवेशिमुच्यते दे सर्वपादकैर्न विज्ञातो नरैस्सर्वैर्न दैत्याैर्न च दानवैः मरीच्याद्यैर्मुनिवरैर्दर्शितोऽयं वरानने दक्षिणस्यो दधे स्थीरेण्यग्रोधो यत्र तिष्ठति यस्तु कल्पे समुत्पन्ने मखदुल्पानिबर्हणे विनाशं नैव चाभ्येदि स्वयं तत्रैव संस्थितः दृष्टमात्रे वडे तस्मिन् छायामाश्रित्य चासकृद ब्रह्महत्याप्रमुच्येत पापेषु अन्येषु कथा प्रदक्षिणं कृदं यैस्तु नमस्कारैस्तु जन्तुभिः सर्वे विधुतपवास्ते गदा वै केशवालयं न्यग्रोधस्योत्तरे किञ्चिद्दक्षिणे केशवस्य तु प्रासादे तत्र तिष्ठेत्तु पदं धर्ममयं कितदर् प्रदिमां तत्र दृष्ट्वा स्वयं देवेन निर्मिताम् अनायासेन वैयान्तिभवनं मे तदो नराः गच्छन्ेवदुतं दृष्ट्वा एकदा धर्मराट् स्वयं मदन्तिकमनुप्राप्यप्रणम्य ब्रवीद नमस्ते भगवन्देवलोकनाधाय ते जे क्षीरोदवासिनं देवं शेषभोगोरुशायिनं परं वरेण्यं वरदं कर्तारं ह्यक्षयं प्रभुं विश्वेश्वरमजं विष्णुं सर्वज्ञमपराजितं नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणं सर्वङ्गं निर्गुणं शान्तं जगद्वातारमव्ययम् सर्वलोकविधातारं लोकनाथं सुखावकम् पुराणपुरुषं वेद्यं व्यक्ता व्यक्तं सनातनं पुरा पुराणं स्रष्टारं लोकतीर्थजगद्गुरुं श्रीवत्स वक्षसायुक्तं वनमाला विभूषितं पीतवस्त्रं चतुर्बाहुं शङ्खचक्रदाधरम् हारकेयूरसंयुक्तं मुकुटाङ्गदधारिणं सर्वलक्षणसंयुक्तं सर्वेन्द्रियविवर्जितं कूढस्तमजलं सूक्ष्मं ज्योतिरूपं सनातनं भावाभावविनिर्मुक्तं व्यापिनं प्रकृतेः परम् तं नमस्ये जगन्नाथमीश्वरं सुखदं प्रभुम् इत्येवं धर्मराजस्तु पुराण्यग्रोधसन्निधौ स्तुत्वा नानाविधै स्तोत्राय प्रणाममकरोत्तदा तं दृष्ट्वा जमः भागे प्रणदं प्राञ्जलिं स्थितम् स्तोत्रस्य कारणं देवि पृष्टवानहमन्तकम् वैवस्वतमहाबाको सर्वदेवमयोह्यसी किमर्थं स्तुतवानिद्धं संक्षेपाद् यम उवाच अस्मिन्नायतने पुण्ये विख्यादे पुरुषोत्तमे इन्द्रिनीलमयी सृष्टा प्रदिमाः ताम् दृष्ट्वा पुण्डरीकाक्ष भावेनैकेन श्रद्धया स्वेदाख्यं भुवनं यान्ति निष्कामाश्चैव मानवाः अधश्चैवम् न शक्नोमि व्यापारमरिसूदन प्रसीदं त्वं महादेव संहरप्रतिमां विभो श्रुत्वा वैवस्वतस्य इदद्वाक्यं तमहमुक्तवान् यमयितां गोपयिष्यामि सिततापि समन्तदः तदस्ता देवी वल्लीभिर्गोपिता तथा यथा तत्र न पश्यन्ति मनुजा स्वर्गकाङ्क्षिणः प्रच्छाद्य वल्लिकैर्देवी जातरूपपरिच्छदैः यमं प्रस्थापयामास तां पुरीं दक्षिणां दिशं गुप्तायां प्रतिमायां इन्द्रमीलस्य वै तदा तस्मिन् क्षेत्रवरे पुण्ये विख्याते पुरुषोत्तमे यत्कृतम् तत्र वृत्तान्ते दे, देवदेवो जनार्दनः तत्सर्वं कथयामास सतस्मै तस्मै भगवान् पुरः इन्द्रद्युम्नस्य गमनं क्षेत्रसन्दर्शनं तथा क्षेत्रस्य वर्णनं चैव व्युष्टिं तस्य च मोहिनि दर्शनं बलदेवस्य कृष्णस्य च विशेषतः सुभद्रायाश्च तत्रैव माहात्म्यं चैव सर्वशः दर्शनं नरसिंहस्य व्युष्टिसङ्कीर्तनं तथा अनन्तवासुदेवस्य दर्शनं गुणकीर्तनम् श्वेतमाधवमाहात्म्यम् स्वर्गद्वारस्य वर्णनम् उदधेर्दर्शनम् चैव स्नानम् तर्पणमेव च समुद्रस्नानमाहात्म्यमिन्द्रद्युम्नस्य चापि वै पञ्चतीर्थफलम् चैव महाज्यैष्ठ्याम् तथैव च स्नानम् कृष्णस्य हलिनः सर्वयात्राफलम् तथा वर्णनम् विष्णुलोकस्य क्षत्रस्य च पुनः स्वयम् पूर्वम् कथितवांस्तथ्यम् तस्यै स पुरुषोत्तमः इति श्रीभृतनारदीयपुराणोत्तरभागे पुरुषोत्तममाहात्म्ये द्विपञ्चाशत्तमोऽध्यायः ओम्